वयम् इन्द्रेण प्रेषिता उपा वायुष्टे अष्टकम् शभोः मित्रस्ते अष्टकम् शभोः वरुणस्ते अष्टकं शभोः अवाहाक्षयारस्य गर्भाः भुवनस्य गोपास्येन अतिथयः पर्वदानाम् प्रभुहः प्रगितोनपादारः अग्णेन्द्रगृह्वयत घोषेणामीवागश्चादयत युक्ता स्थवहरा रेवा ग्रावाणयुन्दरिन्द्रयुत्यवादुषुः ऐन्द्रमदुच्छवः परमस्या परावतः आस्मात्सुस्ताद् ओरोरन्तरिक्षाद् आदुभोधमधुरवः ब्रह्मवर्धकम् आदुरवः समरेरक्षागस्य मथिजः अपहरम् ब्रह्मज्ञस्य वाच्य प्रामनश्च श्रेणीताम् बालश्च श्रेणीताम् चक्षश्चत्वा श्रोत्रम् च श्रेणीताम् दक्षश्चत्वाबलम् च श्रेणीताम् ओषश्चत्वासमश्च श्रेणीताम् आयश्चता जानश्रेणीताम् आत्मा जत्वा धनोश्च श्रेणीताम् श्रुतो श्रेभत्वा यमिन्द्रमाहो वरुणय्यमाहोः त्रमाहुलय तत्न्यमाहुः यो देवानाम् देवतमस्तपोजाः हस्मै त्वादेभ्यस्त्वा मयिकरीन्द्रियम् महदे मयि तक्षो मयिक्रतुः मयि धायसुवीर्यम् पृषद्घर्माविभागमे आगोद्गामनसासः राजाज्योजुदासः यज्ञेन पयसासः तस्य दोहमजेमहे तस्य तुम् नमशेमहे यस्य भक्षमजेमहे वाग्ना सोमसदृप्यदो मित्रो जनान् प्रथमित्रो अन्यो अस्ति या विमेषभवनानि विश्वा प्रजापदप्रदजासंविधानः तेनोदेशो एष ते ते ते, ते ब्रह्माय ऋत्तिगः इन्द्रो नाम श्रुतो गणे प्रते महे विशेष ेवन्वे वर्षो हर्यणम् मदम् इन्द्रो नामभिरण्णयः हरिभिश्चासे श्रोगणः विशन्तो हरिवर्तङ्गिरः इन्द्राधिपतेऽधिपतिस्तम् देवानामदि अधिपतिम् माहान् आयुष्पन्दम् वर्चस्पन्दम् मनुष्येषु गुरु इन्द्रस्य सम्रा वरुणश्च राजा भक्षम् चक्रसुरग्रजेतम् तयोर्णभक्षम् भक्षयामि वाग्धाना सोमस्य लोप्यतो अविराविश्वकर्मा तस्य मनो एवम् विज्ञेन्दराध्यासम् अर्थैका अस्तेभिदः अवसानपदे अवसानम् मे विन्द नमो रुद्रायवास्पोष्पदये आयने विद्रवणे उद्याने यत्परायने आवर्तने विवर्तने योगोपायिभिजगम्भुरे यान्यमित्रान्यप्रदेतान्यस्मि हिमश्च परिणाचरामि ह्यैव सन्द्रप्परिदर्ज्यालयामः निहरामयेन अनर्णास्मिन्नः परस्मिन् प्रतीगे लोके अन्या स्याम ये देवनाः सर्वान् पथो नृणाः क्षीयेम यज मूलश्रेजोसा गवाकन्मा ीमेरा वीरेण सञ्चरे वा अर्कः पवित्रकौरजसोभिमानः पुनाजिदेवानाम् भुवनान् विश्वा या वा पृथिवीमयसा संविधाने घृतम् दुहाते अमृतम् प्रवीणे पवित्रमर्को रजसोभिमानः पुनाविदेवानाम् भुवनान् विश्वाः सुहर्जो दुर्यो महदे अशीमहि काशमुदप्रतिष्ठाम् पुरस्ताम् सेत् स पितामित्रोऽनुयमा सर्वान् मित्रान् वजेद्विगेन निरन्दम् वामकरद्वीरवन्दम् रथम् हरे श्रेय स्वस्वाहा वामदेव्येश्रयस्वस्वाहान्तरिक्षे बृहदिश्रयस्व स्वाहा दिवे आत्मा तदेशदेववीर्याय च अस्मास्पर्भ्य युगम् तथा चेन्धम् वयः यस्ते दप्सो यस्तमुदर्षः देव्यः केतुर्विश्वम्भुवनमा विवेशे ह्ये स्वाहा अनुमा सर्वो यज्ञो निमेतो विश्वे देवामरुदः सा मार्गः आप्रियच्छन्दागुम् हि निमितो विजोगुम् अस्यै पृथिवेयम् प्रजापतेर्वक्तनिमनुवर्तस्व अनुवेदैर्दाध्यामगोभिः अन्वष्पैर्ण सर्वैर्पुष्टेः अनुप्रजयान्विन्द्रियेण देवानो यज्ञमनुषुधारयन्तु प्रतिक्षत्रे प्रतिष्ठामि राष्ट्रे प्रत्यष्पेष् प्रतिनिष्ठामिगोषु प्रतिप्रजायाम् प्रतिनिष्ठामि भव्ये विश्वमन्याभिवावृधे तदन्यस्यामधिसृतम् विवेदविश्वकर्मणे जेदाकरन्नमः अस्कान्त्य पृथिवे अस्कालभायभागाः स्कन्ने माविश्वाभुवना स्कन्नायज्ञः प्रजनयतो अस्कानजनिप्राजने अस्कान आस्कन्नाध्याय तेदृशाः स्कन्ना प्रजनशीमहि हे देवा येषामिदम् भागधेयम् प्रभोग एषाम् प्रजातानो याजाः इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः अग्निहोदृभ्यो देवेभ्यस्पाः उदत्या नो दिवामतिः अत्यागमते सा चन्ताजेमयस्करते अपसृधः उदत्या देव्याभिरुजा षण्णस्करतो अश्विना यूयाजामस्मद्रुपः अपसृतः समज्ञाग्निभिस्करदे संवादोपात्वरपाः अपस्तुतः विजृेत विद्वान् यन्मृतः पुनरप्येति जीवान् प्रभृत्यद्भुवनः सरसौरवागर्भामृदस्य जीवान् प्रत्यस्मै पिपीषे विश्वान् विजुषेभर अगङ्गमानि जग्मवे अपश्चाद् जघ्मनेन्दरे इन्दुलिन्दुमवाघाद् इन्दु अलिन्दोपा तस्य दैन्दवीन्द्रवेदस्य मधुमनः उपभोदस्यापहोद भक्षयामि ब्रह्मप्रतिष्ठामनसो ब्रह्मवाजः ब्रह्मयज्ञानागमविषामायस्योक्तम् यज्ञः पर्वाणि प्रतिधन्य स्वाहा कृताहुजनेऽपि देवान् यथाश्राविदमत्याश्राविदम् कृतमत्यलोभोक्तम् च यज्ञे अतिरिक्तम् कर्मणो नित्यहीनम् यज्ञः पर्वा युक्प्रतिरन्नेयन्ने स्वाहा कृताभुजरेति देवान् यज्ञो देवादिपादयानि वाचायुक्वैदन्ने बहेडनम् अरायो अस्माकम् अभिरुत्सुनायते अन्यत्रास्पन्मरुदस्तन्निधेतन तदम् महावस्तुरायते पुनः स्वायुक्तास्यते अयमुदमग्रपुतविष्णुभेडिजः स्वाहाग्रहस्य समदर्पणवद्भवः मद्गणम् तमसत्परि पुरुत्यञ्चित्राम् इमम् मे वरुणदत्त्वायामि त्वन्नो अज्ञे षत्त्वन्नो अज्ञे त्वमग्ने अयाधिप्रजापदे इमम् जीवेभ्यः प्रसिद्धसामि मयिषान्वकादमनर्थमेतम् सदञ्जीवन्त सदतत्पुरोदेः शिरो मृत्यम् इष्टेद्भ्यस्पाः वृषणमिष्टेभ्यस्ताः वेळेन्दरभ्ये स्वाहा स्वाहा दूराध्ये स्वाहा देवेभ्यःभ्यस्वाः निर्ध्ये स्वाहा समृद्धे स्वाहान्द्रभयामहे ततो नाभयम् विधे मखवन्त्यः सस्थिताभिः वृद्धः मृदाभिहे विषयेन्द्रः पुननेतुनः स्वामिताभयङ्करः आभिर्गेऽर्भिर्य नवनात्याय वर्धमानः भूयिष्टभागो श्याम अनाज्ञानम् यज्ञस्य क्रीडेमिषो अग्ने कल्पया प्रगुषिवेषसंविदो यज्ञः यज्ञः पुरुषसंविदः अज्ञेन्द्रस्य कया अगम्यर्थकथा तथा यत्पागत्रा दीनदक्षाणा यज्ञस्य मन्मदेवत्ता सह अग्निष्ठद्भूताकृनन् यतिष्ठो देवागमृतजो यजादि यद्देवादेवहेडनम् देवादश्च क्रमा वयम् आदित्यास्तस्पान्मामुञ्चत ऋतः सर्गे वाचानुतमो हिमा अग्निर्मानस्मादेन सह कारिकवत्यप्रपञ्चलो दुर्गायानि करोदमावरेण सम्बिवेदागंहतः ऋदन्यसांसांसा धृतवागणीयसः अनाज्ञान तस्पात्तमस्त्वाञ्जानुवेदो मम मग्ध्ये यद्वाचायम् मनसा बाहुभ्याम् मोनभ्यामष्ठीमद्भ्या शिष्णेमा वयम् अग्निर्मातस्पादेन सह यद्धस्ताभ्याम् चकरकल्पितानि अक्षाणाम् अग्नमुपलिभ्यमाणः दूरे पश्यादिराक्षान्यक्षतसा वृणदत्तावृणानि अतीव्यम् नैरहञ्चकार यद्वादास्यान्तः अद्यस्मारेण सह यन्मयि मातागर्भे सति येन चकारेत्पिता अज्ञर्मादस्मारेण सह यदानुपेमादरम् पितरम् पुत्रः प्रवचदोधयन् एवंसितौ वितलोमयादनो भमि यदन्तरिक्षम् पृथिवीमुदत्याम् यन्मादरम् पितरम् वा एकंसिमा अग्निर्मादस्पादे सहसानुशसायत्पराक्षसाणत्र क्रमानूतनयत्पुराणम् अग्निर्मादस्पादेण सह अतिक्रामामिति ऋतञ्जयतेनमे सुस्थे यत्रे सुखतोनामि दुःकृतः कमारोहामि सुकृतान्नलोकम् हृदयेवामृजैकृतेन हृदयजन्मनष्टेषु ततो मा यञ्चिदानसे अग्निर्मादस्पादेन सह नारिखपत्यः प्रवञ्चदुरयाणक्रमा रदमामनेन सम् जाताप्सु जाताः जाता वोषधेभ्यः अथो या अग्निजा आपः आनः शुन्धन्तु शुन्धनीः यदा वो नक्तम् तु वितञ्चलाम यद्वादिमानूतनयत्पुराणम् हिरङ्गवह्नासतदपुनीतनः त्वन्ना अग्ने सत्पन्नाग्ने त्वमग्ने अजाधि यत्तेऽग्रापन्नादिच्छुत्स्वपराजन्परोगं हे तत्सन्सक्स्वाग्नेयस्व अनागतमथमित्सङ्क्षयेम यत्तेऽग्रा वा बाहुच्छुतोदक्षिणेन तत्ताप्यायतान्त्यायतान्देमोम यत्रे त्वदम् विभजयेक्षयोनिम् यदा स्थानाकृच्युतोपेन सिद्मनाः तयामगुप्तमस्तु नः स्थानः सन्धासत्परमे व्योमन् अहा शरीरम् पयसा समेत्य अन्यो अन्योभवजिवर्णोऽस्य तस्मिन्वयमुपभूतास्तव स्मः आनोभजसरसि विश्वरूपे निरक्षास्वामबुदशुश्रुहस्तु ताणो विहासे गिरावृणानः अनागास्तु नवो वा नेः तस्मै देशो चाजन्स्व सोमराजन्ताश्चिदगुंसमुदत्ते अस्तु जानीतान्नः सङ्गमनेपथीनाम् एतम् जानीतात्परमे व्योमन् मृगास्तुपमस्य यदा गच्छाभिर्देैः इष्टापूर्ते कृणदाजाभिरस्मै अदिष्टो राजन्न गजः परेः नमस्ते रभूयते नागमादोः समेयमानेन सूर्यम् गच्छतात्परमे व्योमन् अभो देवस्वन्द्यो नृणः इदानीमन्धौ उपवाद्योभिः विजोरत्रा भजति वा नवेभ्यः स्वेच्छन् अत्र द्रविनम् यथा दशत् उपनामित्रावरुणा विहावदम् अन्वादेध्याथा विजनः यद्यतेक्षे मनसायच्छद्वा प्राणैश्चक्षुरायच्छोत्रेण निर्देतसामिप्यात्मना अर्भ्यो लोकार्थिरेचेदीन्द्रियम् शुक्रादीक्षा एतपसाविमोचनेः आपविभोक्तेर्म हितेतन्द्रियम् यदृजासाम् नायुदुषा भजूनाञ्जर्मण हविषादिदीक्षे यच्छन्दो भयो धर्मनःपदो अभ्योनोकालशेन्द्रियम् शुक्रादेक्षादेतपदा विमोचनेः आवविमोत्रेर्महिलेरेन्द्रियम् येन ब्रह्मजेन क्षत्रम् येनेन्द्राये प्रजापतिः सोमा वरुणो येन राजाः विश्वेन मानजो येन प्राणाः अध्योनोकालसरे तैन्द्रियम् शुक्रादेक्षायै तपदा विमोचनेः आवाय वक्त्रेर्मैलेले इन्द्रियाम् अवाम् वृष्टमस्योणधे नागमृदः सोमस्य प्रियन्धाम अग्ने प्रियतमगम् अविस्वाहा अवामृष्टमस्योढधे नागमृदः सोमस्य प्रियन्धाम इन्द्रस्य प्रियतमगम् अविस्वाहा अवामृष्टमस्योणधी नागमदः सोमस्य प्रियन्धाम विश्वेषाम् देवानाम् प्रियतमगम् अविस्वाहा अयम् सामप्रदेतव मनः विप्रदः प्रयावन्तो धीमहि देवेभ्यः पितर्भ्यस्वाहा सौम्येभ्यः पृजर्भ्यस्वाहा कव्येभ्यः पृजर्भ्यस्वाः देवादिगमादयध्वम् सौम्यादिरिगमादयध्वम् कव्यादिरिहमादयध्वम् अनन्तरिदाः पितरः सोम्या सोमपैशाय अपेतुवृत्तिरमदन्नागन्ने नाभयम् पर्णम् वनस्पतेरिव अभिनश्ये यदागमरैः शरदान्नश्य दीपतिः परम् वृत्यानुपदे विबन्धाः यस्तेऽस्मैतरोदे वयानात् चक्षुष्पदेशम् मदेते ब्रवीमि मानःप्रजागौरीशो मोदवीरान्श्रेयनमागन्मानदिनस्पजिद्यत् पर्णम् वनस्पतेरिव नवीनश्रीयदागुवरिः सजनान्नश्च ये परिः ओ सा ग्रहण्येऽप्यायजने इमाञ्जनताम् सङ्गृह्णानि द्वादशारत्नेन जना भवते द्वादशमासाः संवत्सरः संवत्सरमेवावरुन्धे मौञ्जे भवते पूर्वैमुञ्जाः ऊर्जमेवावरुन्धे चित्रानक्षत्रम् भवते चित्रम् वा एषत्कर्म ऋस्वमेधस्व मध्यै पुण्यनामदे वैजनमध्यमश्चि पुण्यामेपदेन कीर्तिमभिजयदे अपदादे ऋद्विजः समावहन्त्यासु ब्रह्मण्यायाः स्वर्गस्य लोकस्य चमष्ट्यै केशश्मश्रुवपदे नखा निगृन्दते स्नादे वाचै यत्त्वापवसते स्वर्गस्य लोकस्य योज्यैः रात्रिम् जागरयम् दादरे स्वर्गस्य लोकस्य समष्ट्यै चतुष्टै यापभवन्ति चतुश्च अश्वप्राजावत्यः समध्यै तादिभ्यः समाहृता भवन्ति इक्ष्वा आपः अन्नम् वा जायते फिरे वाभ्योन्नम् जायते तदवन्धे पादब्रह्मो धनम् भजने एतगेव दधानि दशरामो भवति लक्ष्मेव प्रतिष्ठते भगदो लक्ष्मो भवतः भजदेवस्मिन्द्रुजम् दधाति उद्धरदिषदत्ताय सर्पिष्पान् भवति मे धत्वाय चत्वार्याः प्राश्चि द्विषामेव ज्योतिरिजहोदि चत्वारि हिरण्यानि ददाति यदाज्ञमुच्छ्यते तस्मिन् रशदान्यनग्ने प्रजापतिर्वापोधनः एदाज्यम् यदाज्ञे रशनान्यनग्ने प्रजापतिमेवले च समर्थयदे गर्भमयी रशनाभवने बहुमाजेण मेध्यमुपगच्छति यदस्वः पवित्रम् वै दर्भाः यद्दर्भमयी रशना भवने पदापे वैनम् ओदमे न मेऽभ्यमानफले अश्वस्य वालभ्यस्य महिमोदक्रामदेशप्राविश तन्महत्विजा महत्वित्वम् अश्वस्य वाक्रामदे तत्सुमर्नगम् हिरण्यमभवदे यत्सुमर्नगम् हिरण्यम् ददाति हेत एव दधाति ओदने ददाति एतो वावो दनः एतो हिरण्यम् एतदैवात्मो दधाति हवे ब्रह्मणे देवेभ्यः प्रजापदये प्रतिप्रोच्या स्वं मेध्यम् बध्नाति आ देवदाभ्यो विष्ठले पापीयान्भवने यः प्रतिप्रोच्य प्रदेवदाभ्याविष्ठदे वशीयान्भवते ब्रह्म नश्वम् वेद्यम् भान् स्वामिदेवेभ्यः प्रजापदगे ब्रह्म वै ब्रह्मा ब्रह्मण एव देवेभ्यः प्रजापदगे प्रतिप्रोच्चम् वेद्यम् वध्रादे न देवदाभ्यावश्चे प्रदीयान्भवने देवश्चत्राप्रथमै सनामादत्ते प्रथोके अश्विना बाहुभ्यामित्याह अस्मिनो हि देवानामध्वर्यो आस्ता ओष्णास्ताभ्यामित्याहयत्यै जत यद्भ्रम्ब एतद्यज्ञस्य यतयजुष्केण क्रियते इमामशभ्रन्दशनामृदस्तेच्यधिविदति यजुष्कृत्यै यज्ञश्च समर्थ्यै तदा कालशारत्रयशनागर्तव्या प्रयोदशारत्री ऋषभो वा एषोनाम् यत्संवत्सरः तस्य त्रयोदशो मादोविष्टवम् ऋषभयेषयज्ञानाम् ऋस्वमेधः यथा वा ऋणभस्य विष्टवम् एवमेधस्य विष्टवम् त्रयोदशमनयोरसलायामुपादधादि यथा ऋणभस्य विष्टमगम् सद्यः आयुदेवास्मिन् दधादि दे, जगादेवा सुतमा बभूवृत्याः भो भोजिमेव वा वर्तते रथःसमन् सहमानमन्देत्याह सत्यम् वा रदम् सत्येनैवेन भजेनारभते अभिधासेत्याह अस्मानस्वमेधगादीनम् वाणि भूतान्यभिभवति भो भुवनमधेत्याह भोमानमेवोपैः यम् दाधेत्याह चिन्तानमेवेनम् करोति धर्ताधेत्याः धर्तारमेवैनम् करोति स्वाज्ञम् वेष्मा नरमित्याह अज्ञावेवैनम् वेष्मा नरेजुहो सप्रसमित्याः प्रज एवैनम् पशुभिः प्रथयते स्वाहारसहित्याः होम एवाश्लैषः पृथिव्यामित्याह अस्यामेवैनम् प्रतिष्ठापयति यम्तारा्यन्तासि यमनो धत्तासि धर्मयुत्याहमेवास्येदन्मयमानम् व्यायते कृष्येत्त्वा क्षयमायत्वा रयैत्वापोषायत्वेत्याह आशिषमेवैतामाशासे स्वगात्वा देवेभ्य इत्याह देवेभ्य एव ग्यः स्वाकरोति स्वाहात्वा भुजापतिगित्याः प्राजापत्यो वा स्मः यस्यागेव देवतागाः लभ्यते स एवमभ्ययते यः पितरनुजागाः पुत्रः स पुरस्तान् नयति यो मातृरनुजागाः पुत्रः स पश्चान्नयते पुष्पञ्चमेवास्मात्पात्मानम् विबृहतः नो अपन्द्रिघाग्रंशितमभ्यमे वरुणयतिष्ठानम् च तु रक्षम् प्रसौति परोमर्थः परश्वे न शुनश्चतुलक्षस्य प्रहन्ते ै पाप्माभ्रातुर्यः पाप्मानमेवास्य भ्रातव्यगोहन्ते सैद्धगम् मुसलम् भवते कर्मकर्मैवास्मै साधयतेहन्ते उष्णल्वाम् मे देवास्तु सुदेवाश्रजमुहन्ते पात्मा वा यतमेत्सदेत्याहुहमेधेन गजनयदे अश्वस्या अग्रैवाश्वप्रादापत्यः अग्रेणैवमानम् भ्रातुर्यमपक्लावक्षिणापप्लावयते दे। आत्मानमेवात्माक्षमनमपप्लावयते ऐषेकवदोहो भवते आयुर्वा इहेगाः आयुरवास्मिन् दधते अमृतम् वा विहेगाः अमृतमेवात्मिन्दधते वेददशागोपसम्बद्धा भवते अप्सयो निर्वाश्वः अप्सुचोगेतसः सा देवेन यो नैर्निर्मिमेते पुरस्ता प्रत्यभ्यरोहदे पुरस्तादेवास्मिन् प्रदेच्छमसन्दधादे अहम् चत्पञ्चमत्र हन्य ब्रह्मा इलमानसहस्तम् ग्रन्थादि ब्रह्मक्षत्रे एव आभ्ययवेनम् शतसुग्भ्यो ऋग्भ्योऽभितमे रयन्ते शतेन राजपुत्रैः सहाध्वर्यः पुरस्कारात्प्रत्यङ्गच्छन् प्रवक्षते अनेनाश्व न मेऽध्ययनेष्ट्वा अयगौराजावृत्रम् वध्यादिते राज्यम् वा ध्वर्यः क्षत्रगौराजपुत्रः राज्येनैवास्मिन् क्षत्रम् गृहाते शतेन सह ब्रह्मा दक्षिणदौदम् तिष्ठन् प्रोक्षते अनेनश्वे न मेऽध्येनेष्व अयगौ राजात्मनि शस्यो परम् मे ब्रह्मा परमराजोऽग्रह बलेनैवास्मिन् बलम् दृशाते शरेन सूदङ्ग्रामणिभिः सहोता पश्चात्प्राङ्गन् प्रोक्षते अनैनाश्वे न मेऽध्येनेष्व बहुग्रेवःपष्पादे वःप्रजाविकायै बहुग्रेवायै बहुमाशनिलायै बहुहिरण्याय बहुमस्तिकायै बहुदाशपोरुषाले नेमत्यै मुष्टिमत्यै बहुदाय स्तो राजास्मिने भौमा वैहोदा भौमासूदग्रामन्यः भौम् नैवास्मिन्भौमानन्दधादे षत्रसङ्गहेतुभिः सहोद्गादा उत्तरदो दक्षिणातिष्ठन्दोक्षदे अनेनाश्वेन वेद्धेनेष्वा अयगङ्गाजातर्वायुष् आयुर्वावद्गाता आयुः क्षत्रसङ्ग्रहेतारः आयुषेवाभिन्नायुदशादि श्रयुण्ठलम् शतंग भवन्ति क्षदाय पुरुषेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठते भवन्ति प्रतिष्ठते यथा वेहमिषोगहीतस्य स्कन्ददे एवम् वा एलश्वस्य स्कन्ददे यन्निक्तमनानर्धमुदन्ति यत्स्तोक्या अन्वाः सर्वभुतमेवेन करोत्यस्कन्धाय अस्कन्दगम् यद्भिदस्य स्कन्दरे सहस्रमन्वाः सहस्रदविदस्वर्गो लोकः स्वर्गस्य लोकस्याभिजित्यै यत्परिमितानुब्रूयात् परिमिदमवरुन्धेन अपरिमिदान्वाः अपरिमिदः स्वर्गो लोकः स्वर्गस्य लोकस्य समष्टे स्तोक्याजहोदे या एव वर्ष्या आपः सा अवरुन्धे अस्याम् जहोदे इयम् वा अग्रवैष्पादनः अस्यामेवै न प्रतिष्ठापयदे उभाजः प्रजापतिः स्तोक्याजुवाहमस्वमेधगम् रस्थापयामि अड्जगे स्वाहेत्याह अड्डगेवेन जहोदे सोमाय स्वाहेत्याह सोमा एवम् जहोदे सवित्रे स्वाहेत्याह सवित्र एवम् जहोदे सरस्पत्ये स्वाहेत्याह सरस्पत्या बृहस्पदेवेन जुहोदेष्पाहेत्याह अभ्यु एवेन जुहोदे वायवेस्पाहेत्याह आयवयेवेन जहोदे मित्रायुष्पाहेत्याह मित्रा एवेन जुहोदे वरुणायुष्पाहेत्याह वरुणायैवेनम् जुहोदे एताभ्य एवेन देवताःभ्यो जुहोदे दशदश दशाक्षरा विराट् अन्नम् विराट् विरा देवान्नाद्यमवृन्धे प्रवागेशोऽस्माल्लोकाच्चपदे यत्पराजे दे राहुदेर्जहोदे पुनः पुनरभ्यावर्तन् जहोदे अस्मिन्नेव लोके प्रचतिष्ठते एतागम् हवामसोऽस्कमेश्छ स्कन्दास्कन्दकम् यद्गस्थिरस्कन्दने प्रजापतिजये द्वादिष्ठम् प्रोक्षामेति पुरस्तात् प्रत्यन् तिष्ठन् प्रोक्षते प्रजापतिर्वै देवानामन्नादो वेर्यावान अन्नाद्यमेवास्मिन् वेर्यम् दधारे तस्मादस्वपचो नामन्नादो वेर्यावत्तमः राज्ञभ्याम् वै देवानामोऽजिष्ठौ बलिष्ठौ ओधयेवास्मिन् बलम् तस्पादस्वपशो नामोऽष्ठो बलिष्ठः आयवे त्वेति पश्चाद् आयुर्वै देवानामाशस्सानसारितमः जवमेवास्मिन् दधादे तस्पादस्वपशो नामाशस्सानसारितमः विश्वेभ्यस्ता देवेद्भ्यस्तेभ्यस्ताद् देवा वै देवानामुपजिततमाः अपजितिमेवास्मिन् दधाने तत्पादस्य प्रचोनामपजिततमः सर्वेद्भ्यस्ता देवेऽद्भिजित्युपनिष्टाद् सर्वे वै देवास्मिषिमन्दोहरश्विनः स्विजिमेवास्मिन हलो दधाने तत्पादस्वप्रचोनाद्भिषिवानहरश्विनः रिक्षायत्वा पृथिव्ये त्वेत्याह येभ्य एव लोकेभ्यः प्रोक्षते लो सरे त्वाभ्यस्तौषधेभ्यश्च विश्वेभ्यश्चा भूतेभ्यगत्याः स्वमेधकाचिनकम् सर्वाणि भूतान्युपजीवन्ते ब्रह्मवादिनो वदन्ति यत्प्राजावत्योऽस्मादेन मन्याभ्यो देवदाभ्योऽप्रोक्षदे अश्वेऽपि सर्वादेवदा अन्वायत्ताः कैयद्विश्वेभ्यक्ता भूतेभ्ये प्रोक्षते एवदा एवास्मिन्नन्वाया तस्पालश्वे सर्वादेव अन्वायत्ताः विशोगहेतस्य स्कन्दने एवम् वा एतदश्वस्य स्कन्दने यत्प्रोक्षदमनानद्धमुत्सृजन्ते जुहोदे सर्वभृतमेवेन करोत्यस्कन्दाय अस्कन्दकम् हिद्धुरस्य स्कन्देङ्कृ यस्वाहेत्याहेतानि वा चरितानि चरिते रेवेण समर्थयते तदाहुः अनाहुयो वा चरितानि नैताहोदव्या इति अथो खल्वाहुः होदव्यादेव हो वा, अत्र वाम् विद्वारस्वमेधकम् दग्नि स्थापयति यस्वचरितानि विभोज ्यागते बहिर्भावागेण मेतदागतलाद्रहे दा भ्यादुर्वमस्मै जनयते यस्या नागतनेः नेत्राग्नेनाहुदेर्जुहोदे सावित्रयागष्ट्या पुरस्ताच्छकृतः आहवनीयस्मयजाजहोदे आगतन एवाद्याहुदेर्जुहोदेभ्यादुर्यम् जनयते तदाहुः यज्ञमुखे यज्ञमुखे होदव्याः यज्ञश्रुगत्यये सुवर्गस्य लोकस्यानुष्ठाज्ञाने असौखल्वाहुः यज्ञमुखे यज्ञमुखे जुयान् पशुपर्यतमानव्य अपसुवर्गाल्लोकात्पद्येन आमीयान् सागरे जगदेव होदव्याः नयजमानम् पशुभिगर्धयने अयवर्गल्लोकञ्जयदे नवामीयान् भवने अष्टादत्तारिकंशदमश्वलोपाणि जहोदि अष्टादत्पादिविंशदक्षराजगजे जाविलोश्वप्राजापत्यः जा समर्थ्यै एकमजरिक्तम् जहोति तस्मादेकः प्रजास्पर्धुकः विभोर्मात्रा प्रभो पित्रेत्याः इयम् वै तस्माच्छष्टाः प्रजागन्ते अत्यसेत्याह तत्पालश्वः सर्वान् पशूनत्येजे तत्पालश्वः सर्वेणाम् पशो नागच्छेष्ठम् गच्छले प्रयषश्रेष्ठमाग्नोदे यगेवम् वेद सर्वा सप्तरचिवाद्येत्याः भोगमेवासेदम् महिमानम् व्याजष्टेन्नामाधेत्याः एतद्वारश्वस्य प्रियम् नामधेयम् ेन नागे नाभिवदे तस्मादप्य मित्रौ सङ्गत्या नाम् नासेभ्यगते मित्रमेव भवतः आदित्यानाम् पद्वान् भेत्याः आदित्या नैवैनम् गमयते अग्निगे स्वाहा स्वाहेन्द्राग्निभ्यामिति पूर्वहोमाञ्जहोदे पूर्व एव गृहन्द्रम्भातव्यमधिक्रामदे भोरजि भवे यत्का भव्यायत्ता भविष्ये त्वेत्युच्छ्रुतमत्त्वाय देवाशाबाला एतम् देवेभ्यो स्तम्वेधाय प्रोक्षरङ्गोपायदेप्याः संवेदप्या राजपुत्रा देवाशाबालाः ष्पा हेहमिषदिष्पा हेहरम् दिष्पा हे हरमदिष्पास्य बन्धनम् बध्नादे तस्पार्श्वप्रमक्ताबन्धनमागच्छते तस्पार्श्वप्रवक्ताबन्धनम् न जहारे दात्रम् वा स्वमेधः दात्रे खलु वा्यायच्छन्ते हेश्वम् मेध्यम् रक्षन्ते ते कार्य उदरे गच्छन्ते राष्टप्रादेवते राष्ट्रम् गच्छन्ति असयपुत्र गच्छन्ति रात्राप्रा देवतेऽप्यवच्छिद्यन्ते पराभागेच्यते दे नमेधेन यजते यदमित्रास्त्वम् बिन्देरन् अन्येदास्तयज्ञः रक्ष्यन्ते यज्ञस्याघादाघात् अधान्यमालीयप्राक्षेयः सैव प्रजापजलगामैलाश्वमेधेन गिरेगेति सदपोदप्यदा तस्य देवानस्य सप्तात्मनो देवतापुलक्रामण् सा दीक्षा भवत् स एतानि वैश्वदेवान्यपश्यत् तान्यजुहोत् वैर्वैतदीक्षामवारुन्ध यद्वैश्वदेवानि जहोति दीक्षामेवन्धे सप्तजुहोति सप्तहिता देवता उदक्रामन् अन्वहम् जुहोति अन्वहमेव दीक्षानुवरुन्धे एनवैश्वदेवान् जुहोति चत्वार्यौ अग्रहणानि सप्तसम्पद्यन्ते सप्तवेशीर्षज्ञाः प्राणाः प्राणादीक्षा प्राणीरेव प्राणान् दीक्षामुपरुन्धे एकविगुंशयम् वैश्वदेवान् जुहोति एकविकंश सर्वैरेव लोकाः कालसमासाह्वत्तमः प्रेजिमे लोकाः असामा वित्तकेकविपुंसः देशसु वर्गो लोकः तद्धैव्यम् क्षत्राम् सा श्रीः तद्ब्रध्वस्तविष्णवम् तत्स्वाराज्यमुच्यते त्रगुंशदमोद्ग्रहणानि जहोदे त्रगुंशदक्षरा विराट अन्नम् विराट विरा दैवान्नाद्यमोऽर्धे प्रेधा विभज्य देवतान्य त्रियामृदो मे देवाः त्रयामृतगमे लोकाः येषाम् के लोकानामाप्त्यै का, केषाम् लोकानाम् लब्ध्यै अपमाय तस्मात् प्राणाक्रामन्ते यो देक्षामजरे जयदे सप्ताहम् प्रजलन्ति सप्तमेधीर्गम्याः प्राणाः प्राणादीक्षा प्राणीरेव प्राणान्धीक्षा वृन्धे पूर्णाहुदिमुत्तमान् जहोदे सर्वम् देवोर्णाहुदिः सर्वमेवाप्नोदे अथो इयम् वेपोर्णाहुदिः अस्यामेव प्रतिगच्छदे प्रजापतिस्तमेधमसजरा किम् षष्ठन्द किञ्च नोदयच्छन् तम् वैश्वदेवान्येवोदयच्छन् यद्वैश्वदेवान् जहोदे यज्ञस्योद्ये स्वाहाभिमाधीता कस्पाः स्वाहाधीनम् वनजे स्वाहा स्वाहा मनःप्रजामृजे स्वाहा कायस्वाहा कस्मै स्वाहागतमस्मै स्वाहेति प्राजापत्ये मुख्ये भवदः प्रजापतिमुखाभिरेवैनम् देवताभिरुद्यच्छते अजज्ञेत्याह यज्ञे भक्ष्ये स्वाहाजज्ञे सुमनेकाहे स्वाहेत्याः इयम् वादिनिः अस्या एवैनम् प्रतिष्ठायोर्गच्छते परस्पत्येष्पाः वृस्पत्ये बृहत्ये स्वाह बृस्पत्यै पावकाये स्वाहेत्याह मा सरस्वती मादेवैनमुद्यच्छते भोष्टे स्वाह भोष्टे प्रपत्या यस्पाः भोष्टे नरा यस्वाहेत्याह पशभो वै भूषा पशुभिदेवैनमुद्यच्छते कष्टे ेव अथो लोपे देवेनमुद्गच्छते विष्णवे यस्वाहा विष्णवेन सुर्यपा यस्वाः विष्णवेन भूय वा यस्वाहेत्याः शिज्ञो मे विष्णवः श्रिज्ञा एवेनमुद्गच्छते ओर्णा हुलिमुत्तवान् जुहोति प्रत्युत्तैषयत्वाया